श्रीहरये नमः अथ सप्तदशोऽध्यायः श्रीशुक यतस्यन्तर्हितो नन्दस्तस्यै कृत्वा दिशे नमः विद्याधरश्चित्रकेतुश्चचार गगगनेचरः सलक्षं वर्षलक्षाणाम् अव्याहतबलेन्द्रियः स्तूयमानो महायोगीमुनिभिस्थिदशाैः कुलाचलेन्द्रद्रोणिषो नानासङ्कल्पसिद्धिषु रेमे विद्यातरस्त्रीभिर्गापयन् हरिमीश्वरम् येदा सभीन विष्णुदत्न भाष्वता गिरीशम ददृशे गच्छन परीत सिद्धचारण आलिंग्यांगीकृता दी बाहुना मुनि संसध उवाच दिव्या शुनवोच्च के एष लोकगुरुसाक्षाद्धर्मवक्ता शरीरिणाम् आस्ते मुख्यः सभायां वै मिथुनीभूय भार्ययां जडादरस्तीव्रतपा ब्रह्मवादिसभापतिः अङ्गीकृत्य क्षत्रियं शास्ते गतः क्रीप्राकृतो प्रायसः प्राकृताश्चापि स्त्रियं रहसि बिभ्रती अयं महाव्रधधरो बिभर्सदसि स्त्रियं भगवान् अपि तच्छ्रुत्वा प्रहस्याघादतीर्नृपा तूष्णीं बभो वसतसि सभ्याश्च त इत्यधत् वीर्य विदुषि भ्रुवाणे बक्वशोभनम् वृषाखदेवी दृष्टाय निर्जित आत्माभिमानिने पार्वत्युवाच अयम् किम् अधुना लोके शास्ता दण्डधरः प्रभुः अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृ न वेत धर्मम् पद्मयो नेर्न ब्रह्म पुत्रा भृगुनारधात्याः न वै कुमारः कपिलो मनुश्च निषेधन्ति अतिवर्तिनम् हरम् येषामनुध्येयपदाब्जयुग्मम् जगद्गुरुम् मङ्गळमङ्गलम् स्वयं यक्षत्रभन्तु परिभूय सूर्यन् प्रसास्ति दृष्टस्तधयम् चिदण्ड्यः नायमर्हति वैकुण्ठपादमूलोपसर्पणम् तम्भाविदमति स्तब्ध स्थादुभिः पर्युपासितम् अतः पापीयसीं योनिम् आसूरिं याहि दुर्मते यदेहभूयो या महतां न कर्ता पुत्र गिल्बिषम् श्रीशुक उवाच एवं स्तप्तश्चित्रकेतोर्विमानात् अवरुह्य सहा नम्रेण भारत चित्रकेतुरुवाचां प्रदिगृह्णामि ते शापम् आत्मनोञ्जलिनाम्बिके देवेर्मर्त्याय यत् प्रोक्तं पूर्वदिष्टं हितस्य तत् जन्तु अज्ञानमोहितः भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वधा नैवात्मान परश्चा मे कर्ता रम् मन्यते प्राज्ञ आत्मानं परमेव गुणप्रवाहयेतस्मिन् कश्चापकोन्वनुग्रहः क स्वर्गो नरको वा किं सुखं दुःखमेव वा ये गश्रुजतिभूतानि भगवानात्ममाययान् येषां बन्धं च मोषं च सुखं दुःखं च निष्कळः न तस्य कश्चिद्दयितः प्रीतिभो न ज्ञानिबन्धुर्नपरो न च स्वहा समयस्य सर्वत्र निरञ्जनस्य अस्य सुखेन न राघः कुतये वरोषः तथापि च मृत्युजन्मनो शरीरिणां संश्रुतये कल्पते अतः सापमोक्षाय भामिनी यन्मन्यसे असाधुक्तं मम तत्क्षं श्रीशुकौ उवाच प्रसाद्य गिरिशौ चित्रकेतो अरिन्धमा जगामस्वाभिमानेन पश्यतो ततस्तु भगवान् रुद्रो रुद्राणीमिदमब्रवीत् देवर्षि दैत्यसिद्धाना पार्षधानां च श्रीरुद्रौ वाच दृष्टवत्यसि शुश्रोणे हरे अद्भुतकर्मणः महात्म्यं भृत्य भ्रत्यानां निःस्पृहाणां महात्मनां नारायणपराः सर्वे न कुतश्च न बिव्यति स्वर्गाबवर्गनरकेष्वपि तुल्यार्धदर्शिनः देहिनां देहसंयोगात् द्वन्द्वानीश्वरलीलयां सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च अविवेककृतपुंसो ह्यर्थभेदैवात्मनि गुणदोषविकल्पश्चभिधेव स्रजिवत् तः वासुदेवे भगवते भक्तिमध्वहतां नृणां ज्ञानवैराग्यवीर्याणां नेहकश्चिद् व्यपाश्रयः नाहं विरिञ्चो न कुमार कुमारनारदौ नः ब्रह्मपुत्रामुनयः सुरेशोः विधामयश्चेखितमं सखां सखान् न तत्स्वरूपं मृदगीसमानिनः न हि अस्यास्ति प्रियः कश्चिन्नाप्रियस्वपरोऽपि आत्मत्वात् आत्मात्वा, सर्वभूतानां सर्वभूतप्रियो हरिहेन् तस्य चायं महाभागश्चित्रकेतुः प्रियोऽनुगहान् सर्वत्र मै दृक्शान्तो हि अहं चैव अच्युतप्रियः तस्मान्न विमश्यकार्य पुरुषेषु महात्मसु महापुरुषभक्तेषु शान्तेषु समदर्षिषु श्रीशुक उवाच इति श्रुत्वा भगवतः शिवस्योमाभिभाषितं बभूवशान्दती देवी विगतविस्मया इति भागवतो देव्या प्रतिसप्तुम् अलन्तमः मूर्ना सञ्जगृहे सापमेधावत्साधुलक्षणम् जज्ञे वृत्र इति अभिविख्यातो ज्ञानविज्ञानसंयुतः एतत् ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि वृत्रस्यासुरजातेश्च कारणम् भगवन्मतेः इतिहासमिमं पुण्यं चित्रकेतार्महात्मनः महात्म्यं विष्णुभक्तानां श्रुत्वा भद्धात् विमुच्यते ययेतत् प्रातरुत्थाय श्रद्धया वाक्यतः पठेत् इतिहासं हरिं स्मृत्वा स याति परमां गतिम् इति श्रीमद्भागवते महापुराणे षष्ठस्कन्ते चित्रकेतुशापो नाम सप्तदशोऽध्यायः सर्वत्र गोपिकाजीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमहाराजके जै